भागवतमहापुराणम् सप्तं स्कन्ध प्रथमोऽध्यायः मातृश्वसेयो वश्चेद्यो दन्तभक्तश्च पाण्डव पार्षत्प्रवुरौ विष्णोर्विप्रसापात् पदाच्युतो युधिष्ठिरवात् कीदृशकस्य वा शापो हरिदासाभिमर्शनः अश्रद्धेव इवा भाति हरिरेकान्तिनां भवः देहेन्द्रिया सुहीनानां वैकुण्ठपुरवासिनां देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि नारदुवाच एकदा ब्रह्मणपुत्रा विष्णोर्लोकं यदीक्षयां स नन्दनादयो जग्मु पञ्चषढ्यायनार्भाभाः पूर्वेषामपि पूर्वजाः दिग्वाससुषुन्मत्त्वा द्वास्थौ तान् प्रत्यसेधताम् अस्पन् कुपिता एवं युवां वासं न हाञ्चार्हतः रहिते पादमूले मधोद्विषः पापिष्ठामासुरिं योनिं बालिसौ जातमाश्वतः एवं शब्दौ स्वभवनात् पतन्तौ तैः कुप् कुप् कृपालुभि प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय जग्याते जगजाते तौदिते पुत्रौ दैत्यदानौ वन्दितौ हिरण्यकसिपुरज्येष्ठौ हिरण्याक्षो निजस्ततः अतो हिरण्यकसिपुरिर्हरिणा सिंहरूपिणाम् हिरण्याक्षोधरोद्धारे विभ्रता शौकरं वपुः हिरण्यकसिपुपुत्रं प्रह्लादं केशवप्रियं जिघांसुरं करोन्नानां जातना मृत्युहेतवे सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनं। भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुम् उद्यमैह ततस्तौ राक्षसौ जातौ केशिन्यां रावण रावणकुम्भकर्णश्च सर्वलोकोपतापनौ तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये रामवीर्यं श्रोष्यसे त्वं मार्कण्डेयमुखात्रभो तावेव क्षत्रियौ जातौ मातृस्पस्रात्मजौतपम् अधुना शापनिर्मुक्तौ कृष्णचक्रहतां हसौ वैरानुबन्धतीव्रेण ध्याने न्याचितसात्मतां नीतौ पुनर्हरे पार्श्वं जग्मतुर्विष्णुपार्श्वदौ युधिष्ठिर उवाच विद्वेषोदयते पुत्रे कथमासीन् महात्मने ब्रोहि मे भगवन्येन प्रह्लां प्रह्लादस्याचिदात्मता इति श्रीमद्भागवते महापुराणे पारं हिंसां शयितायां सप्तमस्कन्दे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः